विंशोऽध्यायः सौतिर्वाच एतत्ते कथितं सर्वममृतम् मथितं यथा यत्र सोश्वः समुत्पन्नः श्रीमानतुल विक्रमः यम् निशम्य तदा कर्तृर्विनतामिदमब्रवीत् उच्चैश्रवाहि किम् वर्णो भद्रे प्रब्रूहिमाचिरम् विनतोवाच श्वेत एवा स्वराजोऽयम् किम् वा शुभे ब्रूहि वर्णम् त्वमप्यस्य विपणावहे कद्रूर्वाच कृष्णवालमहम् मन्ये हयमेनम् शुचिस्मिते एहि सार्धम् मया देव्य दासीभावाय भामिनि सौतिर्वाच एवम् ते समयम् कृत्वा दासीभावाय वैमिथः जग्मतु स्वगृहान् एव श्वोद्रक्ष्याव इति ततः पुत्र सहस्रम् तु कद्रोर्जिह्नम् चिकीर्षति आज्ञापयामास तदा बाला भूत्वाञ्जनप्रभा आविशध्वम् भयम् क्षिप्रम् यथा नावपद्यन्त ये वाक्यम् ताच्छशाप भुजङ्गमान् वर्तमाने पावको वः प्रधक्ष्यति जनमे जयस्य राजर्षेः पाण्डवे यस्य धीमतः शापमेनन्तु शुश्रावः स्वयमेव पितामहः अतिक्रूरम् समुत्सृष्टम् कदुर्वादेवादतीवहि सार्धम् देवगणैः सर्वैर्वाचम् तामन्वमोदत बहु त्वम् प्रेक्ष्य सर्पाणाम् प्रजानाम् हितकाम्यया तिग्मवीर्य विशाह्येते महाबलाः तेषाम् तीक्ष्णविषत्त्वाद्धि प्रजानाम् च हिताय च चा। युक्तम् मात्रा कृतम् तेषाम् परपीडोपसर्पिणाम् अन्येषामपि सत्त्वानाम् नित्यम् दोषपरास्तु ये तेषाम् प्राणान्तको दण्डो दैवेन विनिपात्यते एवम् सम्भाष्य देवस्तु पूज्यकर्तॄञ्च तदा आहूय कश्यपम् देव इदम् वचनमब्रवीत् यदेते दण्डशूकाश्च सर्पा जाता महाभोगा मात्राशप्ताः परन्तप तत्र मन्यस्त्वया तात न कर्तव्यः कथञ्चन दृष्टम् पुरातनम् ह्येतद् यज्ञे सर्प विनाशनम् इत्युक्त्वा सृष्टिकृद् देवस्तम् प्रसाद्य प्रजापतिम् प्रादाद्विषहरीम् विद्याम् कश्यपाय महात्मने एवम् शप्तेषु नागेषु कदर्वाच द्विज सत्तम उद्विग्नः शापदस्तस्याः कद्रोम् कर्कोटकोऽब्रवीत् मातरम् दर्शयिष्यामि तत्राहमात्मानम् काममाश्वस एवमस्विति पुत्रं पुत्रम् इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे विंशोऽध्यायः